अथ नवतितमम् दशकम् वृकभृगु मुनिमोहिन्यम् बरीषादिवृत्तेष्वै तव हि स्थितमिह परमात्मन् निष्कलार्वागभिन्नम् किमपि यदवभातम् तद्धिरूपम् तवैव मूर्त्तित्रयेश्वर सदा शिव परात्मवपुरेव सदा शिवोऽस्मिन् विकुण्ठपदस्त्वमेव त्रित्वम् पुनर्भजसि सत्यपदे त्रिभागे तत्रापि सात्विकतनुम् तव विष्णुमाहुर्धा पातु रजसैव पूर्णः सत्त्वोत्कटत्वमपि चास्ति तमोऽपि कार चेष्टादिकम् तव शङ्कर नाम् निमूर्तौ तम् च त्रिमूर्त्यतिगतम् परपूरुषम् त्वाम् शंसन्त्युपासनविधौ तदपि स्वतस्तु त्वद्रूपमित्यतिदृढम् बहुनः प्रमाणम् श्रीशङ्करोऽपि भगवान् सकलेषु तावत् मानयति यो न हि पक्षपाती त्वन्निष्ठमेव स हि नाम सहस्रकादिः व्याख्यत् भवत्स्तुतिपरश्च गतिम् गतोऽन्ते मूर्तित्रयादिकमुवाच च मन्त्रशास्त्रस्यादौ कलाय सुषमम् सकलेश्वरम् त्वाम् ध्यानम् च निष्कळमसौ प्रणवे खलु त्वामेव तत्र सकलम् निजगादनान्यम् समस्तसारे च पुराणसङ्ग्रहे विसंशयम् त्वन्महिमैव वर्ण्यते त्रिमूर्तियुक्सत्यपद त्रिभागतः परम् पदम् ते कथितम् न शूलिनः यद्रह्म कल्पै भागवत द्वितीय स्कंधो दिंवपुर तमीश धात्रे तम हिशर्व मुख जगाव शिव पिराण सारे ये स्वृकुण गिरीश् भजंते तलम तव हानिवचोऽर्थवादैः भूतार्थकीर्तिरनुवादविरुद्धवादौ त्रेधार्थवादगतयः खलु रोचनार्थाः स्कान्दादिकेषु बहवोऽत्र विरुद्धवादास्त्वत्तामसत्त्वपरिभूत्युपशिक्षणाद्याः यत्किञ्चिदप्यविदुषापि विभो मयोक्तम् तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव व्यासोक्तिसारमय भागवतोऽपगीत क्लेशान् विधूय कुरु भक्तिभरम् परात्मन् इति नवतितमम् दशकम्